इरा देवभूः हो, देवहोर्मनुः हो, देवहोरिति देवः मणोर्यज्ञनीः यज्ञनीर्बृहस्पतिः यज्यनी यज्ञनीरिति यज्ञः बृहस्पतिरुत्था मदानि वोत्था मदानि सगुम् दृशत उक्थ मदानित्युक्थ मदानि स्वे विश्वे देवाः देवासोक्तवाचः सोक्त वाचः पृथिवी सोक्तवाच इति सोक्त वाचः पृथिवी मातः मा र्मधु मधुमनिष्ये मनिष्ये मधु मधुजनिष्ये जनिष्ये मधु मधु वक्ष्यामि वक्ष्यामि मधु मधु वदिष्यामि वदिष्यामि मधुमती मधुमतीम् देवेभ्यः मधुमतीमिति मधुमती देवेभ्यो वाचम् वाचमुद्यासम् उद्यासकम् शुश्रोषेण्या श्वश्रोषेण्याम् मनुष्येभ्यः मनुष्येभ्यस्तम् तम् अवन्तु शोभायै शोभायै पितरः पितरो नु अनुमदन्तु मरन्त्विति मदन्तु हरिः ओ शान्तः शान्तः शान्तिः ira deva ho deva ho